एवदं हिण्यगर्भ उपत्ति दुर्दशात्मक जगेण जाता पुनः तस्ोर्धु सत्यलोक जाता स्वयं यं शंस्यगर्भमकल त्रैलोक्य जीवात्मक यो भूत्स्पीतरजो विकार विकसन् नानासिश्रूषारस सोऽयम् विश्वविसर्गदत्तहृदय सम्पश्यमान स्वयम् भूतम् कल्वनवाप्य विश्वविषय चिन्ताकुलस्तस्ति वाम् जगताम् पते तपतपे देवं हि वै हायसी वाणी मे नमसिश्वरस्तुतिसुखाम् कुर्वम्स्तव प्रेरणा कोऽसौ मामवदत् पुमानिति जना पूर्णे जगन्मण्डले दीक्षोत्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता दिव्यम् वर्ष सहस्रमात्र तेनत्वमारादित त्वमाराधित तस्मै दर्शितवानसि स्वनिलयम् वैकुण्ठमेगात् बुधम् माया यत्र विकुरुते बाते जगद्भ्यो बहि शोक्रोधविमोहसात्मसमुख भावस्तु दूरम् गताम् ज्योतिप्रकाशात्मके तत्तेदाम विभावितम् विजयते वैकुण्ठरूपम् विभो यस्मिन्नाम च दुर्बुजा हरिमणि श्यामावदादद् विशो नानाभूषणरत्नदीपितदिशो राजद्विमानालया भक्तिप्राप्तता दिव्यति देव्या जना तत्तेदामनिरस्त सर्वचमलम् वैकुण्ठरूपम् जयेत् नाना दिव्यवतु जनैरविवृता विद्युल्लता तुल्यया विश्वोन्मातनकृद्यगात्रलतया विद्योदिता शान्तरा त्वत्पादाम्बुजसौरभैककुतुकाल् लक्ष्मी स्वयम् लक्षते अस्मिन् विस्मयनीय दिव्यविभव तत्ते पदम् देहि मे तत्रैवम् प्रदिदर्शिते निजपदे रत्नासनास्यासित बास्वत्कोटिलसत्किरीटकटक द्याकल्पदी प्राकृती श्रीवत्साङ्कितमातकौ छायाुण कारण विश्व तव ऊपम क्षत विधे सत्ते भो बलायोमलुचि चक्रेण चक्रम दिशा आवृण्वान मुदारम्त छंद प्रसन्ना राजत्कंबुरी पंगजर श्रीमत्भु मण्डल स्रष्टुस्तुष्टिकरम् बबुस्तव विब मद्रोकमुद्वासयेत् दृष्वा सम्पृथ सम्भ्रमकमलबुस् त्वत्पादपादोरुहे हर्षावेशवसंशतो निबदित प्रीत्या कृतार्ती भवन् ज्ञानम् तदापादय द्वैताद्वैतभवत्स्वरूपपरमिति आचष्टतम् त्वाम् भजे आदाम्रे चरणे विनम् रमततम् हस्तेन हस्ते स्पृशन् बोधस्ते भविता बो न सर्गविधिभे बन्तोऽपि सञ्जायते इत्याभाष्यगिरम् प्रतोक्ष नितरा तच्चित्तगूटस्वयम् सृष्टौ तम् समुदैरयत्स भगवन् उल्लासयोल्लागता श्रीकृष्ण गोविन्द हरे मुरारे श्रीनाथन नारायण वासुदेव